मुद्गलपुराणं खण्डं त्रिमहोदरचरितम् अध्यायं ट्वेन्टि त्रि श्रीगणेशाय नमः मुनिरुवाच मनोर्वंश्ये महाभागोम्बरीषश्च बभूवयः एकादशीव्रती नित्यं वदतं तस्य चेष्टितं नरनारायणावोचदुः मनोर्वंश्येन्त्यपुत्रो भूतं परीषः नित्यं विष्णुं स्वभावेन भजच्चानन्यमानसः एकादशी व्रतेनैव तोषयामा समाधवं तदो बहुगदे काले द्वादश्यां तं ययौ मुनिः दुर्वासा क्रोधशाली चाधिधि पेत तं प्रणम्य सजर्षिवाच प्रकृताजलि भगवन्स्वकालस्तादशी मे च पारणे व्रतसाधन कार्यां प्राथयामे महामुने स्वल्पकालेन सन्ध्यादि कृत्वा गन्तव्यमादराद तथेधि नृपदिं विप्रभुक्त्वा तीर्थम् जगामः तत्र शीघ्रतया तेन कृतं सन्ध्यादिकं मुने तथापि कालयोगेन द्वादशी प्रगदा ततः मुहूर्तमात्र कालस्योत्क्रमणं तेन वै कृतं नृपेण फलमात्रा सा द्वादशी साधिता भवत विष्णुतीर्थं ततस्तेन भक्षितं व्रतसिद्धये पश्चाद्दधिराजस्य प्रतीक्षा मकरो नृपः तदशीकृदय तत्र दुहासा प्रयौ मुने राज्ञा तस्मै स्ववृत्तान्धकथितो विस्तरेणः श्रुत्वा स कुपितोऽत्यन्तं दुर्वासास्तं शशापः निमन्द्र्य मां त्वया राजन् प्रकृतं पारणं कथम् अतस्त्वं बलहीनो वै भविष्यसि न संशयः एवमुक्त्वा जगामासौ दुर्वासा स्वेच्छयाचरन् ततः सोऽपि नृपोऽत्यन्तदुःखितः संस्थितो भवत उपोषणसमयुक्तस्वगृहे तं प्रदीक्षयन् अदिधिं त्वागदं त्यक्त्वा कथं कुर्वेहि भोजनं निमन्त्र्यतं विशेषेण जपध्यानपरायणः गदेसं वत्सरे तत्रा जगाम जगाममुनिनारदः प्रपूज्य सर्ववृत्तान्तं कथयामासतं नृपः तदस्तं नारदप्राह शृणुराजन्महामदे जलभक्षणमात्रेण पारणं च त्वया कृतं द्वादशी व्रतका पूर्णा साधिदा व्रतसिद्धये अपराधविहीनस्य तवायं विघ्न उद्धितः दुर्वासा कोपसंयुक्तो जगामक्षुधितो गृहात् अतस्त्वं विघ्नराजं तं भज यत्नेन मानद तेन विघ्नविहीनश्च भविष्यसि न संशयः विष्णुना प्रेषितोऽहं वै त्वदर्थं नृपसत्तम सर्वेषामादिरूपोऽयमन्दे सोऽपि गणेश्वरः शिवविष्णुवादयस्तस्य गणः प्रोक्ता न संशयः तेन संस्थापिता सर्वे नानाकार्येषु भूमिप चित्तं बुद्धिस्वरूपं यत्तत्र चिन्तामणिस्थितः तं गच्छं mm. वत्सपदिं बुद्धेर्विशेषदः त्यक्त्वा सिद्धिपदिं देवं सिद्धिमिच्छति दुर्मतिः तस्यासिद्धिर्भवेन्नित्यं सर्वत्रात्र न संशयः एवमुक्त्वा मुनिस्तस्मै ददौ मन्त्रं षडाक्षरम् महाविष्णुर्जपदि यं तद सोऽन्तर्हितो भवद अम्बरीषस्तदारभ्य विघ्नेशं शरणं गतः जजापमन्द्रराजं तं पूजयित्वा विनायकं विष्णोर्गणेशस्य चैव भेदस्तेन समाश्रितः गणेशस्य चतुर्धासमूर्तिस्सर्वत्र दृश्यते ततो दूर्वाससो विप्रमनश्चञ्चलतां गदं दयया स्वयमेवासावम्बरीशं जगामः समागदं मुनीन्द्रं तं दृष्ट्वा विस्मितमानसः परिशो धावम्बरीषो पूजयद्भक्तिसंयुतः ततस्तम् नृपशार्दूलं दुर्वासा दुर्वासाविनयेनैव युक्तं परमहर्षितः दुर्वासा उवाच क्षमस्वैनं मे पराधं साहसं नृपसप्तमा अपराधविहीनं त्वाम शपं क्रोधसंयुधः त्वं तु साधुस्वभावेन संस्थितस्वगृहे नृप उपोषणसमायुक्तस्तेन सर्वं जिदं त्वया मां त्यक्त्वा जलपानेन पारणं यत्त्वया कृतं सैव निष्फलरूपैकादशी तव भविष्यदि अन्याफलयुधा सर्वास्ते भवन्तु नृपोत्तम एवमुक्त्वा स तेनैव बुभुजे मुनिसत्तमः तमनुगृह्य दुर्वासाययौ स्वस्याश्रमं शुभम् अम्बरीषस्ततो देवं गणेशमभजत् सदा तस्मात् पुत्रा समुत्पन्नास्तत्र राज्ये नृपोत्तमस्थं स स्थापयित्वा वनं ययौ भक्त्या गणपतिं तत्र भजचानन्यचेतसा काले नान्दे गणेशानं ययौ योगेन तत्त्वदः अम्बरीशस्य पठति चित्रं यच्च शृणोधि यः चरित्रं तस्य भक्तिश्च भुक्तिर्भवति शाश्वती ॐ तत्सदिः श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते अम्बरीषचरितं नाम त्रयोविंशोऽध्यायः ओम्